ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 67 आयो सवेन् महात्मान आयोः महाबलाः स्वर्भानु स्वर्भानुतनयान्ते प्रभाया जज्ञिरे नृपाः नहुश प्रथमस्तेषा क्षत्रवृद्धस्तस्मृत रंभो व्यजिनेिषु लोकेशु विश्रुता क्षत्रवृद्धात्मज सुनहोत्रो महायश सुनहोत्रायादपरम काश्य वेदौ तथा गृत्समतः पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ब्राह्मणाः क्षत्रियाश्चैव वैश्याशूद्रास्तथैव च एतस्य वंशे सम्भुधा विचित्रै कर्मभिर्द्विजाः शलात्मजोख्याष्ठिशेणशिशिरस्तस्य जात्मजः शौनकाश्चाष्ठिशेणाश्चक्षत्रोपेदा द्विजातयः काश्यस्य काशिपो काश्या राजा पुत्रो दीर्घतपस्तथा धन्वश्च दीर्घतपसो विद्वान् धन्वन्तरिस्ततः तपसों ते महातेजादो वृद्धस्य धीमतः अथैनमृषय प्रोचु सुदं वाक्यमिद पुनः ऋषय ऊचुः कश्च धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ये तद्वेदितुमिच्छामस्तन्नो ब्रूहि परन्तपुत उवाच धन्वन्तरे संभवोयं श्रूयतामिह वैद्विजाः स सम्भुदः समुद्रान्ते मध्यमाने मृदे पुरा उत्पन्नक् कलशात्पूर्वं सर्वतश्च श्रियावृतः सद्यः संसिद्धकार्यं तं दृष्ट्वा विष्णुः स्थितः अब्जस्त्वमिति होवाच तस्मादब्जस्तु सस्मृतः अब्जः प्रोवाच विष्णुं तं तनयोस्मि तव विधत्स्वभागं स्थानं च मम लोके सुरोत्तम एवमुक्तः स दृष्ट्वा तु तद्भ्यं प्रोवाच सप्रभुः कृतो यज्ञविभागस्तु दैत्येयैर्हि सुरैस्तथा वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः न शक्यमिह होमं वै तुभ्यं कर्तुं कदायन अर्वाक्सुतोसि हेदेव तव न वै प्रभो द्वितीयायां णिमादियुधां सिद्धिं गतस्तत्र भविष्यसि येदेनैव शरीरेण देवत्वं प्राप्स्यसि प्रभो चातुर्मन्त्रैर्कृदैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः अथवा त्वं पुनश्चैव ह्यायुर्वेदं विधास्यसि अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना द्वितीयं द्वाबरप्राप्य भविदां न संशयः तस्मात् तस्मै वरं दत्त्वा विष्णुरन्धदधे ततः द्वाबरे प्राप्य सौन होत्र सकाशिराट पुत्र कामस्तपस् नृपो दीर्घ तपस्त अब्ज दु पुत्रा श्या राधयुर्नृप वरण छंदयास तद धन्वंदरीपमृप नुर्प उवाच भगवन्यदि तुष्टस्त्वं पुत्रो मे गतिमान् भवेः तथेदि समनुज्ञाय तत्रैवान्तरधात्प्रभुः तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा काशिराजो महाराजः सर्वरोगप्रणाशनः आयुर्वेदम्भरद्वाजात्प्राप्येह सभिषक्रियं तमष्ठथा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् धन्वन्तरिसुतश्चापि केतुमानिधि विश्रुतः अथ केतुमतःपुत्रो ज्ञे भीमरथो नृपः पुत्रो भीमरथस्यापि जादो धीमान् प्रजेश्वरः दिवो दास इति भवद वारणास्यधिपोऽभवद् यदस्मिन्नेव काले दुपुरीं वारामसीं पुरा शून्यां निवेशयामासेमको नाम राक्षसः सप्ताही सा पुरीपूर्वं निकुम्भेन महात्मना शून्यावर्षसहस्रं वै पुनःपुनः तस्यां तु सप्तमात्रायां दिवो दासप्रजेश्वरः विषयान्दि पुरीं रम्यां गोमत्यां सन्यवेशयद ऋषय ऊचुः वाराणसीं किमर्थं तां निकुम्भ शब्दवान् पुरा धर्मात्मा सिद्धक्षेत्रं शशापयः सुत उवाच दिवो दासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः वसते स महातेजस्वीदायाँ वै नस्वे तो कृदारो महेश दिव्यास प्रियकामस्त वसन वै देवाज्ञया परिषदा विश्वरूपास्तपोधनाः पूर्वोक्तरूपसंवेशै स्तोषयन्ति महेश्वरीं हृष्यदेतैर्महादेवो मेना नैवतुष्यति जुगुप्सदे सा नित्यं देवीं तथैव च मम पार्श्वे त्वनाचारस्तव भर्ता महेश्वरः दरिद्रः सर्वधैवेह आकष्टं लज्जते न वै मात्रा तथोक्ता वच सा स्त्रीस्वभावान्न च क्षमे स्मितं कृत्वा दु वरदा हरपार्श्वमधागमद विषण्णवदना देवी महादेवमभाषद नेह वत्स्याम्यहं देव नय निवेशनं तथोक्तस्तु महादेव सर्वाल्लोकान् निरीक्ष्यः वासार्थं प्रोजयामास पृथिव्यां तु द्विजोत्तमाः वाराणसीं महतेजासिद्धक्षेत्रं महेश्वरः दिवो दासेन तां ज्ञात्वा निविष्टां नगरीं भवः पाश्वस्तं ससमाहूय गणेशं क्षेममब्रवीद गणेश्वरपुरीं गत्वा शून्यां वाराणसीं कुरु मृदुना चाभ्युपायेन अधिवीर्यः स पार्थिवः ततो गत्वा निकुम्भस्तु पुरा स्वप्ने सन्दर्शयामासमङ्गनं नामदो द्विजम् श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानख मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय तथा स्वप्ने यथा दृष्टं सर्वं कारितवान् द्विजः नगरी द्वार्यनुज्ञाप्य राजानं तु यथाविधि पूजातु तु चैव नित्यमेव प्रयुज्यते गन्धैर्दुभैश्च बाल्यैश्च प्रेक्षणीयेस्तथैव च अन्नप्रधानयुक्तैश्च ह्यत्यद्भुतमिवा भवत एवं सम्पूज्यते तत्र नित्यमेव तदो ततो वरसहस्राणि नागराणां प्रयच्छति पुत्रान् हिरण्यमायूंषि सर्वकामां तथैव च राज्ञस्तु महिषी श्रेष्ठ सुयशा नाम विश्रुधा पुत्रार्थमागदा साध्वी राज्ञा देवी प्रचोदिता पूजां तु विपुलां कृत्वा देवी पुत्रा नयाचत पुनः पुनरधागत्य बहुशः पुत्रपरणात् न प्रयच्छति पुत्रांस्तु कारणेन तो क्रुध्यते यदि तद तचि प्रवर्त अथ दीर्घेण काल न क्रोधो राजशत भोदी मम्हद्वार प्रयछति प्रीत वराश्च शिन्न प्रय्छति मकू्य निगरिया मम चु साचित बहुशो नददादिच दुत्र मे कृदघ्नों बहुभोजन अदो नार्सदिपुजाद मत्सकाशात्कथञ्चन तस्मात् नाशयिष्यामि तस्य स्थानं दुरात्मनः एवं तु सविनिश्चित्य दुरात्मा राजकिल्बिषी स्थानं गणपदेस्तस्य नाशयामासदुर्मतिः भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः यस्माद्विना विनाशितं मे त्वया स्थानं विनाशितम् सत्वागुंभस्त महादेवद शून्युरी महादेव निर्ममे पदमात्म तु्या देव आदो दिव्या महामना रमदे तत्र वैदेवी ह्यैश्वर्यात्साधु विस्मिता देव्या क्रीडार्थमीशानो देवो वाक्यमधा ब्रवीधर्नाकं वेश्मविमोक्ष्यामिह्यविमुक्तं हिमे गृहं प्रकस् यैनामधो वाचक्यविमुक्तं हि मे गृहं नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै मया स करमस्वेकक्षेत्रे भामिन्यनुत्तमे तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयं एवं वाराणसी सप्ताह्यविमुक्तं च कीर्तिता यस्मिन् वसेद् भवो देव सर्वदेव नमस्कृतः युगेषु त्रिषु धर्मात्मा सह महेश्वरः अन्तर्धानं कलौ तत्पुरं तु महात्मनः अन्तर्हिते पुरे तस्मिन् पुरीसा सा वसदे पुनः एवं वाराणसी शब्दा निवेशं पुनरागता भद्रसेनस्य पुत्राणां शतमुत्तमधन्विनाम् हत्वा निवेशयामास दिवो दासो नराधिपः भद्रसेनस्य राज्यं तु हतं तेन बलीयसा भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः दिवो दासेन ना बालेधि कृणयास विसर्जितः दिवो दासादृशद्वत्यां वीरोजज्ञे प्रदर्दनः तेन पुत्रेण बालेन प्रहृदं तस्य वै पुनः वैरस्यान्तमहाराज तदा तेन विदित्सदा प्रदर्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतौ वत्सुत्रो ह्यलर्कस्त सन्नतिमज प्रदिराजर्षि श्रोको गीता पुरातन ष्टिवर्षसहस्रा षिवर्षशता युवा संपन्नो ह्यर्क काशी सतम लोपामुद्राप्रसादेन परमायुरवाप्तवान् शा पश्यान् दे रम्या मा वा सयामास नृपः सन्नतेरपि दायादः सुनिधो नाम धार्मिकः सुनिधस्य दुदायातः क्षैमाख्यो नाम धार्मिकः क्षेमस्य केतुमान् चात्मजः सुखेदुस्तनयश्चापि धर्मकेतुरिति श्रुतः धर्मकेतोस्तु दायादः दा सत्यकेदुर्महारथः सत्यकेतु सुतश्चापि सुकुमारस्य सु सु पुत्रस्तु दृष्टकेतुःसुधार्मिकः दृष्टकेदोस्तु दायादो वेणुहोत्र प्रजेश्वरः वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः गार्ग्यस्य गर्गभूमिस्तु वंशो वत्सस्य धीमतः ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्रा सुधार्मिकाः विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः इत्येते कश्यपा प्रोक्ता रजेरपि निबोधत रजेः पुत्र सदान्या पञ्चवीर्यवधो भुवि क्षत्र विख्यातं क्षत्रसिन्द्रभयावहम् तदा देवासुरे युद्धे समुत्पन्ने सुदारुणे देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् आवयोर। भगवन्युद्धे विजेदा को भविष्यति ब्रूहिणः सर्वलोकेश्रोतुमिच्छामहे वयं ब्रह्मोवाच येषामर्थाय सङ्ग्रामे रजिरात्तायुधप्रभुः योच्यते ते विचष्यन्ते त्रीं लोकान्नात्र संशयः रजिर्यतस्ततो लक्ष्मीर्यदो लक्ष्मीस्तदो धृतिः यदो धृतिस्तदो धर्मो यदो धर्मस्तदो जयः ते देवादनवा सर्वे ततश्रुत्वा रजेर्जयम् अभ्ययुर्जयमिच्छन्तस्तुवन्दो राजसत्तमं ते कृष्टमनसः सर्वे राजानं देवदानवाः ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम् रजिरुवाच अहं जेष्यामि भो दैत्या देवाञ्चक्रपुरोगमान् इन्द्रो भवामि धर्मात्मा तदो योत्स्ये रणाचिरे दानवा ऊचुः अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे अस्मिन् दुसमये राजं तिष्ठेधा देवनोदिदे स तथेति ब्रुवन्नेव देवैरप्यभिनोदितः भविष्यसीन्द्रो जित्वे हि देवैरपि निमन्त्रितः जखानदानवान् वध्या वज्रपाणयः विप्रनष्ठां देवानां परमश्रीश्रियं वशी निहत्यदानवान्सर्वानाजहार रजिप्रभुः तं तथाह रजिं तत्र देवैः सह सदक्रदुः रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः इन्द्रोऽसि राजन् देवानां सर्वेषां नात्र संशयः यस्याहमिन्द्रः पुत्रस्ते यास्यामि शत्रुघन् स तु शक्रवच श्रुत्वा वञ्चितस्तेन मायया तथेत्येवाहवैराजा प्रीयमाणश्रतुम् तस्मिंस्तु देवसदृषे दिवं प्राप्ते महीपतौ दायाद्यमिन्द्रादाजग्नुराचार्यतनया रजेः तानि पुत्रशदान्यस्य तच्च स्थानं शतीपतेः समाक्रामन्दबहुधा त्रिविष्टपम् तदकाले काले बहुदिधे समतीते महाबलः हदराज्यो ब्रवीचक्रो हदभागो बदरी बदरीफलमात्रं वै पुरोडाश्यं विधत्स्व मे ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ब्रह्मन्कृशोऽकं विमना धृतराज्यो हृदासनः हतौ चा दुर्बलो युद्धे रजिपुत्रे प्रसीदमे, मे बृहस्पतिरुवाच यद्येवं चोदितशक्रत्वया स्यां पूर्वमेव हि नाभविष्यत् त्वत्प्रियार्थमकर्तव्यं ममानख प्रयतिष्यामि देवेन्द्रत्वद्धितार्थं महाद्युदे यज्ञभागं च राज्यं च अचिरात् प्रतिपत्स्यसे तथा शक्रगमिष्यामि मा भूते तेजस्संवर्धनमकद तेषां च बुद्धिसम्मोहमकरोद्बुद्धिसत्तमः ते यदा तु सुसम्मूढा रागान्मत्तो विधर्मिणः ब्रह्मद्विषश्च संवृत्ता हदवीर्यपराक्रमाः तदो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् अत्वा रजिसुधान् सर्वान् कामक्रोधपरायणान् य इदं च्यवनं स्थानात् प्रदिष्टां च शतक्रदोः शृणुयाच्छावयेपि न सदौर्यात्म्यमाप्नुयात् इति ब्रह्मांडे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसम्भवादिवर्णनं नाम सप्तषष्टितमोऽध्यायः ओ